नमो नमः सूताया हंजायवनानाम् पददे नमो नमो रोहिताय पददे वृक्षाणाम् पदवे नमो नमो मन्त्रणे वाणिजाय पददे नमो नमो भुवं ददेवायवस्कृता जौषधीनाम् पददे नमो नम उच्चैर्घोषाय पददे नमो नमः कृत्स्नवेतायथापदे सत्त्वनाम् पददे नमः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 चावभिन्दते धनमो बर्मिणे च वरोचने धनमो बिन्मिने च कवचने धनमश्रुताय च श्रुतसेनाय च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 मेघ्याय च विद्युत्याय च न वेभ्ययाय चा तप्याय च नभो वात्याय च लेश्म्याय च नभो वास्तव्याय च वा स्तुपायच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 सहस्रमगतम् पाशा मृत्यो मर्त्याय हन्त मे तानि यज्ञस्य पायजा सर्वा नव गजामहे मृत्यभे भगवते रुद्राय विष्णवे मृत्युर्मे भाई प्राण जयद्रामाविश्रान्तकाः एनान्येनाहाप्याघस्वा न वारद्राय विष्णवे मृत्यर्मे अष्टमे वर्धिष्टमे वेदष्टमे ऋष्कृष्टमे सुजस्तमे नमसाष्टमे व्यावरणाष्टमे स्वरमस्तमो भरभाष्टमे धनेतमे मोनकासस्तमे वायुल्यालमाधवनीनश्चम आग्ने ध्वमे हविद्वानिचमे गृहाष्टमे गृहष्टमे पुरोडाशाष्टमे पशताष्टमेतष्टमे स्वगाकालष्टमे